च समे मे मयश्च समे मे प्रियम् प्रियम् च अनुकामश्च अनुकाम इत्यनु कामः चमे मे कामश्च चमे मे सौमनसश्च समे मे भद्रम् भद्रम् च क्षमे मे श्रेयः श्रेयश्च चमे मे वत्स्यः वत्स्य च समे मे यशः यशश्च समे मे भगः भगश्च समे मे द्रविणम् द्रविणम् च समे मे यन्ता समे मे धर्ता समे मे क्षेमः समे मे धृतिश्च समे मे विश्वम् समे मे महः महश्च समे मे संवित संवित् च संविदिति संवित समे मे ज्ञात्रम् ज्ञात्रम् च समे मे सोः सोश्च समे प्रसोश्च प्रसोरितिप्र सोः समे ए मे समे सीरं, मे लयः समे मृतम् मृतम् समे मे मृतम् समे मे यक्ष्मम् अयक्ष्मम् समे मे नामयत अनामयच्च समे मे जीवातुः जीवातुश्च समे मे दीर्घायुत्वमिति दीर्घायु त्वम् समे अनमित्रम् च समे एभयम् अभयम् च समे ए मे सुगम् सुगम् च सुगमितिषु गम् समे ए मे शयनम् शयनम् च समे मे सुषा शूषा च सुषेतिषु उषा समे ए su dinam su dinam cha su dinam itiso dinam chave maitime sancha chame me mayaha mayascha